देवगन्धर्वनागानामरिं सनिजघानः सत्त्ववान्गुणसम्पन्नो दीप्यमान स्वतेजसा एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः रावणं सगणम् हत्वा दिवमाक्रमताभिभूः इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः कृष्णावतारः ततः कृष्णो महाबाहुर्भीतानाम् अभयङ्करः अष्टाविंशे युगे राजञ्जज्ञे श्रीवत्सलक्षणः पेशलश्च वदान्यश्च लोके बहुमतो नृषु स्मृतिमान् देशकालज्ञः शङ्खचक्रगदासिधृक् वासुदेव इति ख्यातो लोकानाम् हितकृत्सदा कुले जातो भूमे प्रियचिकीर्षया स नृणामभयम् दाता मधुहेति स विश्रुतः शकटार्जुनरामाणाम् किल स्थानान्यसूदयत्